तोणूरावद् दशकम् श्रीकृष्णपरत्वम् मृगभृगुमोहिन्यम् परीक्षादिवृत्तेषु अयि तव हिमकत्वम् सर्वचर्वातिजैत्रम् स्थितमिग परमात्मनिष्कलार्वाकभिन्नम् किमपि यदवबाधम् दत्तिरूपम् तवैव मूर्तित्रयेश्वर सदाशिव पञ्चकम् यत् प्राहोपरात्मवपुरे वसता शिवोऽस्मिन् तत्रेश्वरस्तु सविकुण्ठपदस्त्वमेव त्रित्वम् पुनर्भजसि सत्यपदे त्रिभागे तत्रापि सात्त्विकतनुम् तव विष्णुमाहु दाता तु सत्त्वविरलो रजसैव पूर्ण सत्त्वोत्कटत्वमपि शास्ति तमो विकार चेष्टादिकम् च तव शङ्करनाम् निमूर्तो तम् च त्रिमूर्त्यधिगतम् परपूरुषम् त्वाम् सर्वमयत्वहेतो संसन्त्युपासनविदौ तदभिस्त्वतस्तु त्वद्रूपमित्यधि द्रुतम् बहु न प्रमाणम् श्रीशङ्करोऽपि भगवान् सकलेषु तावत् त्वामेव मानयति यो न हि वर्क्षपाति त्वन्निष्टमेव सखि नाम सगस्रखादि व्याज्ञद्भवत् गतोन्ते मूर्तित्रयाधिगमुवाच च मन्त्रशास्त्रस्य आदौ कलायसुषमम् सकलेश्वरम् त्वाम् ध्यानम् च निष्कलमसौ प्रणवे खलु त्वामेव तत्र सकलम् निजघात नान्यम् समस्तसारे च पुराणसङ्ग्रहे विसंशयम् त्वन्महिमैव वर्ण्यते त्रिमूर्तियुप्सत्यपदत्रिभाकत परम् पदम् ते कथितम् न शूलिन यद्ब्राह्मकल्पैक भागवत तस्यैव नाम हरिशर्वमुखम् जगाध श्रीमाधवः ये स्वृत्यनुगुणा गिरीचं भजंते तलम कि तदीय भक्त व्यासो तेन घतवानिकिस्का वहाद भूतारुवाद विरदवाद धारवाद कदय खलु रोचनार्ता कान्दादिकेषु बहवोत्र विरुद्धबाध त्वत्तामसत्त्वपरिभूत्युपशिक्षणाद्याम् यत्किञ्चिदव्यविदुषापि विभोमयोक्तम् तन्मन्त्रशास्त्रवचनाद्यदृष्टमेव व्याशोक्तिसारमय भागवतो भगीत क्लेशान् विदूय Baja Govintam Baja Govintam Govindam Baja Mutamate